ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्री मद्देवी भागवते महापुराणे सप्तमस्गन्धे पञ्चविंशोऽध्यायः श्रो उवाच एकदा तु गतो रन्धुं बालक हि सहितो बहिः वाराणस्या नासिरूरे रोहिताक्ष कुमारकः क्रीडां कृत्वा ततो गर्भान् ग्रहीतुमुपचक्रमे कोमला नल्पमूला च सागराच्छकी सागराशक्यनुसारतः अलप्रीत्याुक्त्वा हस्तयोग्मेन यत्नतः सलक्षणा च समिधौ बर्हि सलक्षणं पराशयकाष्ठान्यादाय ग्निहोमासमाधरात् मस्तके भारकं कृत्वा खिद्यमानः पदे पदे उदकस्थानमासाध्य तदा वितहे, भुवि भारंक्षिप्य जलस्थाने तदा शिशुः कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकं वल्मीकौ परिभिन्न बारो पचक्रमे विश्वामित्राज्ञया तावत् कृष्ण सर्पो भयावह महाविशो महाघोरौ वल्मीकान् निर्गतस्तदाय तेनाशो बालघोरश्च तदैव च पपातः रोहिताख्यम्भुतं दुष्ट्वा, ययुर्बाल्यालयं त्वरिताभयतुं विघ्नः स्मान् त्रोचुस्तन्मातुरग्रतः हे विप्रदासीते पुत्रः क्रीडां कर्तुं बहिर्गतः बाभिः सहितः तत्र सर्पद्रष्टो मृतस्ततः इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा अपातमुर्चिता भूमौ वे कदली यथा अस तां ब्राह्मणो वृष्टः पानीयेनाभ्यसञ्चत मूर्ते मूर्ता चेतरां प्राप्ता ब्राह्मण तां तथा ब्रवीत् अलक्ष्मीकारकं निन्द्यं जानसि निशामुखे रोदनं कुरुषे दुष्टे लज्जाते हृदयेन किम् ब्राह्मणेनैव भक्ता सा न किञ्चिद् वाक्यमब्रवीत् रुरोदय करुणं दीना पुत्रशोकेन पीडिताय अश्रु पूर्णमखीरिणा दोसरा मुक्तमूर्धजाय अत तान् कपितो विप्रो राजपत्नीम् अभाषत दीक्तां दुष्टेक्रयम् मम कार्यम् विलम्पति अशक्ता चेत् कथं तर्हि मम तद्धनम् एवं निर्भसिताय तेन क्रूरवाक्यै पुनः पुनः रुदिताय कारणं प्राह विप्रं गद्गदया गिर स्वामिन् माम सुतो बालः सर्पद्रष्टो मृतो बहिः अनुज्ञां मे दुर्लभम् दर्शनम् तेन सञ्जातं मम सुव्रत इत्युक्त्वा करुणम् बाल पुनरेव रुरोधः पुनस्ताम् कुपितो विप्रो राजपत्नीम् बभाषते ब्राह्मण उवाच शठे दुश्चे किं न जानासि पाचकम् यस्वामिवेतनम् तस्य कार्यं विलम्पति नरके पच्यते सोऽ महाधौरवपूर्वके उषित्वा नरके कल्पम् ततो स्व कुक्कुटो भवेत् किं मनेनाथ वा कार्यं धर्मसङ्कीर्तने यस्तु पापरतो मूर्खः क्रोरो नेचो नृपश्यः तद्वाक्यं निष्फलम् तस्मिन् भवेद् बीजां विवोचरे एहि ते विद्यते किञ्चित् परलोक यदि एवमुक्ताथ सा विप्रम् विमानाब्रवीद्वचः कारुण्यं कुरु मेनाथ प्रसिद्धमुखो भवे प्रस्थापय महूर्तम् मां यावद् द्रक्ष्यामि बालकम् एवम् उक्त्वाथ सा मूर्धा निपत्ये द्विजपादयोः रुधे करुणम् बाला पुत्रशोकेन पीडितः अथ हे कुपितो विप्रहे क्रोधसंरक्तलोचन विप्रवाच किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे किं न जानासि मे क्रोधम् कषाघाते फलप्रदम् एवम् उक्तासि साधैर्यात् गृहकर्म चकारः अर्धरात्रोगतस्याः पादाभ्यङ्गादि कर्मण ब्रह्मणेनाथ सा प्रोक्ता पुत्रपाशं वधुना तस्य राहदिकं कृत्वा पुनरगच्छुप्येत प्रातः गुरुगृहकर्म ममेति चेत् तत् स्वैकायकिरात्रौ विलपन्ति जगामहे दृष्टामृतम् निजम् पुत्रम् भुशम् शोकेन पीडिता यूथभ्रष्टाय कुरङ्गीव विवत्सा सौरभीयथाय वाराणस्या बहिर्गत्वा क्षणा दृष्ट्वा निजम् श्रुतं शयानम् रङ्कवद्भूमौ काश्च दर्भ कश्च दर्भ तृणोपरि विरलाय पाति दुःखातानिष्ठुरम् एहि मे सम्मुखं कस्मात् रोषितोऽसि वदाधुना आयासि अभिमुखो नित्यम् अम्बेत्युक्त्वा पुनः पुनः गत्वा स्खलो परिमूषिताय पुनश्च चेतनां प्राप्य मालिंगे मालिङ्गलकं तन्मुखे बुदध्यस्य रुदातय स्वनिस्तराय कराभ्यां ताड्र चक्रे मस्तकश्चोदरस्य च हा बालहासिचोवत् हा कुमारक सुन्दर पश्ये मम बालकं निजम् प्राणेभ्योऽपि गदीयम् भूतले प्रतिदम्बतम् तथा पश्चान्नस्य भूयो जीवितशङ्कया निर्जीव वजनम् ज्ञात्वा मोक्षिता निपपातः हस्तेन वजनम् गृह्य पुनरेवमभाजत शयनम् त्यज एम् जागृहि भीषणम् षाधं वर्धते शिवा शत निनादितं गोता प्रेतपिशाचादि दाकिन्यूथनादितं मित्राणि ते गान्यस्तात् त्वमेकस्तु पुनश्चितः एवम् उक्त्वा पुनस्तन्वि करुणं प्ररोदः हाशिषो बालः वत् रोहिताक्षकुमारक रे पुत्र प्रतिशब्दं मे कस्मात् तं न प्रयच्छति तवाहं जनध्वीवस्य किं न जानासि पश्या माम् पुत्रे राजनाश्च पुत्र भर्त्रा स्वविक्रयात् यदासीत् तच्च जीवामि तान् ते जन्म समये आदिष्टम् यत् तनागतं दीर्घायुः पृथिवी राजः पुत्रपोत्र समन्वितः शौर्यदान रसि तत्तु गुरुदेव द्विजाचकः मातापित्रो सुप्रियः कृत् सत्यवादी जितेन्द्रियः इत्यादि सकलं दातम् असत्यम् अधुना श्रुतः चक्रमत्या चक्रमस्या वातपत्रे श्रीवत्सी श्रीवत्सी गतध्वजाय तव पाणितले पुत्रे कलशैश्चामरं तथाय लक्षणानि तथा न्यानि तत् यानि सन्ति च तानि सर्वाणि भोगानि सञ्चातान्यधुना श्रुते हा राजन् पृथिवी पृथिवीनाथ क्व ते राजन् क्व क्व ते सिंहासनं क्षत्रम् क्व ते खड्ग्वयोध्याय क्व हर्म्याणि क्व गताश्वर सप्रजः सर्वं मे तथा पुत्र मां चक्ष गतो तिरे हा कान्तः पश्य मम सम् येन ते रीङ्गता वृक्षः कुम्कुम्भेनावलेपितम् स्वशरीरजपङ्गै विशालं वलिने कृतम् येन ते बालभावेन मृगनाभिलेपितः भ्रक्षितो बालतिरक तवाङ्कस्य भूपते यस्य वक्त्रम् मृदा लिप्तम् स्नेहाद्वै चुम्बितम् मया तन्मुखम् मक्षिकालिङ्गम् पश्य कीच विदूषितम् ह राजन् पश्य तम् पुत्रम् भुवित्तम् लङ्कवन्मृतम् ह देव किं मया तस्य कर्मफलसेह न पार्श्वमुपलक्षये हा पुत्रः शिशोवत्स हा कुमारकसुन्दर एवं तस्याविलापं ते श्रुत्वा नगरपालकः जागृता चरिता तस्याः पार्श्वमेयुस्तु विस्मितः जनाउु कातं बाल च कस्य पतिते कुत्र तिष्ठति एकैव निर्भय रात्रौ तस्मात् त्वं व्य रोदिषि एवम् मुक्ता ता तन्वी न किञ्चित् वाक्यमब्रवीते भूयोऽपि पृष्ठा सूर्णिं तद्भिभूता बभूव विरलाय पाति दुःखाता शोकाश्रु तन्त्रसा प्रहु अन्योन्यम् उद्धृता युधपाणयः नूनम् त्री न भवतिषा यतः किञ्चिन्न वाचते तद्मद्वध्या भवेदेषा यज्ञतो बालघातिनी शुभा चेत्तर्हि किम् यत्र तिष्ठते बहिः पक्षार्थम् आनीतः कस्यचित् शिशुः इत्युक्त्वा तैर् गृहीता सा गाढं केचेषु सत्वरं भुजयोर्पथैश्चैव कैश्चापि गलकेतथा केसरे यास्ये इत्युक्तं बहुभिः शस्त्रपाणिभिः आकृष्ट पक्कणे नेता चाण्डालाय समर्पिता हे चाण्डाल बहिः दृष्टा यस्माभिर्बालिनी बध्यतां बध्यतामेषा शीघ्रं धीत्वा बहिः स्थले चाण्डालप्रायतां दृष्ट्वा ज्ञाते यं लोक विश्रुताय न दृष्टपूर्वा केनापि लोकडिम्बान्यैकधाय भक्षितान्य भूरि भवद्भिः पुण्यमर्जितं ख्यातिर्वय लोके गच्छं च यथा सुखम् द्विजश्रीबारगो घाति स्वर्णश्रेयी च यो नरह अग्निदो वत्नघाति च मद्यपो गुरुतल्पगः महाज न विरोधी च तस्य पुण्यप्रदो वध द्वियस्यापि स्त्रियो वापि न विद्यते वधे तस्यावधश्च मे योग्य इत्युक्त्वा गाढबन्धनैः भद्राकेशेश्व कृष्ये रज्जुभेतां ताडयत हरिश्चन्द्रम् अथो तदा रे दास वध्यथा मेषा दुष्टात् मामाविचारय तद्वाक्यं वज्रपातोपमं दद द्वीपमानोऽस चाण्डालम् प्राङ्कितः न शक्तोऽहमिदम् कर्तुम् प्रेष्यम् देहि मम परम् असाध्यम् अपि यत्कर्म तत्करीक्षे त्वयोजितम् कृत्वा तदुक्तम् वचनम् श्वपचो वाक्यम् अब्रुवित मा भैषि तम् गृहाणासिम् बालानामेव भयदा नैयं रक्षा कदाचन तच्छ्रुत्वा वचनं तस्य राजा वचनम् अब्रवीत् स्त्रियो रक्षः प्रयत्नेन न ने, हन्तव्यः कदाचन श्रीवधे कीर्तितं पापं मुनिभिः धर्मतत्परैः पुरुषो यस्त्रियं हन्यान् ज्ञातनो ज्ञान ज्ञानतो ज्ञानतो वा नरके पच्यते सोऽ महासौरवपूर्वके ताण्डालो वाचे मा वुदासिं गृहाणम् चिह्नम् विद्युत् समप्रभम् यत्रैकस्मिन् वधम् नीते बहु नाम तु सुखम् भवेत् तस्य हिंसा कृता नूनम् बहु पुण्ये प्रदा भक्षितान्यन्नया भूरि लोके डिम्भानि दुष्टया तस्य प्रमुद्यता मेषा लोकस्वस्थो भविष्यति चाण्डालाधिपते तीव्रम् श्रीवधव जनम् आ जन्मतस्ततो यत्नं न कुर्याम् श्रीवधे तवे चाण्डालवाचे स्वामी कार्यम् विना गृह्य किं कार्यम् विद्यते अपरम् वै त्वा वेतनं मेध्य कस्मात् कार्यम् विलम्बति यस्वामि वेतनं गृह्य स्वामी कार्यम् विलम्बति नरकान्निष्कृति तस्य नास्ति कल्पायुतैरपि चण्डालनाथमे देहि प्राप्यं मन्य स्वशत्रुम् ब्रोहितं केप्रं गासयिष्याम्य संशयम् गासयित्वा तु तं शत्रुम् तव दास्यामि मेदिनीम् देवदेवोरघै सिद्धैः गन्धर्वैरपि संयुतम् देवेन्द्रमपि जेष्यामि नियत्य रचितैश्वरैः एतश्रुत्वा ततो वाक्यम् हरिश्चन्द्रस्य भूपते चाण्डाल कुपितः प्राये रेपमानं महीपतिम् चाण्डालवाच नैतद्वाक्यं सुघटितम् यद्वाक्यं दासकीर्तितं चाण्डालदासतां कृत्वा सुराणां भाजसे वचः दास किं भवन नूनं किञ्चित् पापभयम् हृदि किमर्थं दास तां याथ चाण्डालस्य तु वैष्मरे तथा खड्गम् अस्य छिन्धि शिरोम् भुजम् एवम् उक्त्वा चाण्डालो राज्ञे खड्गं न्यवेदयत् इति श्रीमद्देवी भगवते महापुराणे टादशितायां सप्तमस्कन्धे चाण्डालज्ञाय चाण्डालज्ञाय हरिश्चन्द्रस्य खड्कग्रहणवर्णनं नाम पञ्चविंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु